मार्कण्डेयपुराणम् अध्यायं फिफ्टि मार्कण्डेय उवाच ततोऽभिध्यायतस्तस्य जज्ञिरे मनसि प्रजाः तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह क्षेत्रज्ञा समवर्तन्त गात्रेभ्यस्तस्य धीमतः ते सर्वे समवर्धन्त ये मया प्रगुदाहृदाः देवाद्यास्तावरान्ताश्च त्रैगुण्यविषया स्मृताः एवम्भूतानि सृष्टानि स्थावराणि चराणि च यदा स्यताः प्रजाः सर्वा अधान्यान् मानसान् पुत्रानुसदृशान्नात्मनोऽसृजद भृगुम्बुलस्त्यं बुलहं कृतुमङ्गिरसन्दधा मरीचिं दक्षमन्त्रिञ्च वसिष्ठञ्च मानसं नवब्रह्मण इत्येदे पुराणे निश्चयं गताः तदोऽसृजत्पुनर्ब्रह्मा रुद्रं क्रोधात्मसम्भवं सङ्कल्पञ्चैव धर्मं च पूर्वेषामपि पूर्वजं सनन्दनादयो ये च पूर्वं सृष्टाः स्वयम्भुवा न ते लोकेषु सज्जन्तो निरपेक्षाः समाहिताः सर्वे तेनागतज्ञानावीधरागा विमत्सराग तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः सन्निभः अर्धनारी नरवभुः पुरुषोदिशरीरवान् विभजात्मानमित्युक्त्वा स ददान्तर्दधेतदः स चोक्तो पुरुषत्वं तथाकरोद बिभेदपुरुषत्वञ्च दशधा चैकधातु सः सौम्याः सौम्यस्तदा शान्ताय त्रित्वं च सप्रभुः बिभेदबहुधा देवः पुरुषैरसितैषितैः ततो ब्रह्मात्मसम्भूदं पूर्वं स्वायम्भुवं प्रभुः आत्मनः सदृशं कृत्वा प्रजापालो मनुं द्विज शतरूपाञ्ज तां नारीं तपो निर्धूतकल्मषां स्वयम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः तस्मा च पुरुषात्पुत्रौ सदरूपा व्यजायत प्रियव्रदोत्थानपादौ प्रख्यातावात्मकर्मभिः कन्ये द्वे च तथा ऋद्धिं प्रसूतिं च ददौ प्रसूधिं दक्षाय तथा ऋद्धिं रुचे पुरा प्रजापति सजग्राः जग्राह तयोर्यज्ञः स दक्षिणः पुत्रो जज्ञे महाभागदम्पती मिधुनं तदः यज्ञस्य दक्षिणायान्दो पुत्रा द्वादशजज्ञिरे यमा इति समाख्यादात् देवास्वायम्भुवोन्तरे तस्य पुत्रास्तु यज्ञस्य दक्षिणायां सभास्वराः प्रसूत्यां च तथा दक्षश्चतस्रो विंशतिस्तथा ससर्ज कन्यास्ता सम्यना मे शृणु श्रद्धा लक्ष्मीस्तुषिपुष्टिधा क्रिया तथा बुद्धिर्लज्जा वकु शांति सिद्धिकीर्तिदशी पत् प्रति जग्रह दाक्षाणी प्रभु ताभ्यशिष्टाय वीयस्य एकादश सुलोचनाः ख्यादि सत्यध सम्भोधि स्मृतिस्प्रीदिस्तदा क्षमा सन्ददिश्चानसूया च भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः पुलस्त्यफुलकश्चैव क्रतुश्च ऋषयस्तथा वसिष्ठोत्रिस्तथा वह्निपितरश्च यथा क्रमं ख्यात्याद्या जगृहुकन्या मुनयो मुनिसतमाः श्रद्धा कामं श्रीश्च दर्पं नियमं धृधिरात्मजम् सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरजायद मेधाश्रुतं क्रियादण्डं नयं विनयमेव च बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजं व्यवसायं प्रजज्ञे वैक्षेमं शान्तिरसूयद सुखं सिद्धिर्य च कीर्तिरित्ये धर्मयो नयः कामाददि मुदं हर्षं धर्मपौत्रमसूयत हिंसा भार्यात्वधर्मस्य तस्यां जज्ञे तथा नृतं कन्या च निरृतिस्तस्यां सुतौ द्वौ नरकम्भयम् माया च चा वेदना चैव मिथुनं द्वयमेधयोः तयोर्जज्ञेधवै माया मृत्युं भूतापहारिणं वेदनात्मसुतं चापि दुःखं जज्ञेधरौरवाद मृत्योर्व्याधिजराशोकतृष्णा क्रोधाश्च ज्ञे दुखोद्भवा स्मृता हेद वा धर्मलैषा भारस्पुत्रो वा ते ह्यूर्धतस तथा चा मृत्योभवन्मुने अलक्ष्मीम त मृत्योः पुत्राश्च दुर्दश अलक्ष्मीपुत्रकाह्येदे मृत्योरादेशकारिणः विनाशकालेषु नरान् भजन्त्येदे शृणुष्वतान् इन्द्रियेषु दशस्वेदे तथा मनसि च स्थिताः स्वेस्वे नरं स्त्रियं वापि विषये योजयन्ति अधेन्द्रियाणि चाक्रम्य रागक्रोधादिभिर्नरान् योजयन्ति यथाहानिं यान्त्यधर्मादिभिर्द्विज अहङ्कारगतश्चान्यस्तथान्यो बुद्धिसंस्थितः विनाशाय नरा स्त्रीणाम् यदन्ते महोसंश्रिताः तदैवान्यो गृहे पुंसां दुःसहो नाम विश्रुतः क्षुक्षामोदो मुखो नग्रश्चिरीकाकसमस्वनः स सर्वान् खादितुं सृष्टो ब्रह्मणा तमसो दंष्ट्राकरालमत्यर्थं विवृतास्यं सुभैरवं तमत्तु काममाहेदं ब्रह्मालोकपितामहः का सर्वब्रह्ममयशुद्धरणं जगदोऽव्ययः ब्रह्मोवाजा नातव्यन्ते जगदिदं जहि कोपं शमं व्रज त्यजैनान्दामसीवृत्तिमपास्य रजसकलां दुःसह उवाच श्रुक्षामोऽस्मि जगन्नाथ पिपासुश्चापि दुर्बलः कथं तृप्तिमियान्नाथ भवेयं बलवान् कथं कश्चाश्रयो ममाख्याहि वर्तेयं यत्र निर्वृतः ब्रह्मोवाच तवाश्रयो गृहं पुंसां जनश्चाद्धार्मिको बलं पुष्टिं नित्यक्रिया भवान् वत्सगमिष्यति वृथा स्फोटाश्च ते वस्त्रमाहारं च ददामि ते क्षतं सधाश्वविरवेक्षितं भग्नभाणा कदन् तद्वन्मुखवातोपशामितम् उच्छिष्टापक्वमास्विन्नमवलीढमसंस्कृतं भग्नास्वनस्थितैर्भुक्त मासन्नागदमेव च विधिङ्मुखं सन्ध्ययोश्च नृत्यवाद्यस्वनाकुलम् उदक्योपकदं भुक्र मुदक्या दृष्टमेव च यच्चोपखादवत्किञ्चिद्भक्ष्यं पेयमथापि वा यदा नि तव पुष्ट्यर्थमन्यच्चापि ददामि ते अश्रद्धया कुतं दत्तमस्नातैर्यदवच्नया यन्नाम्बुपूर्वकं क्षिप्तमनर्धो कृतमेव त्यक्तु त्यक्तुमाविष्कृतं यत्तु दत्तं चैवादिविस्मयात् दुष्टं क्रुद्धार्थदत्तञ्च यक्ष तद्भागि तद्फलं यच्च पौनर्भवः करोत्या मुष्मिकं क्रमम् यच्च पौनर्भवायोषित्यक्ष तव तृप्तये कन्याः शुल्कोपधानाय समुपास्ते धनक्रियाः तथैव यक्ष पुष्ट्यर्थमसच्चास्त्रक्रियाश्चयाः यच्चार्थनिर्वृतं किञ्चिदधीतं यन्न सत्यतः तत्सं तव का तव सिुर्ण्यभिगे संध्या नि्यव्यतिक्रमे असच्छास्त्रक्रियालापदूषिषु चुस्सह तवासाथ्यम भविष्य सदा नृषु पंक्ति भेदे वृथा पागभेदे पाकभेदे तथा प्रिया नित्यञ्च गेहकलहे भविता वसतिस्तव अपोष्यमाणे च तथा भृत्ये गोवाहनादिके असन्ध्याभ्युक्षिदागारे काले त्वत्तो भयं नृणाम् नक्षत्रग्रहपीडा सुधोत्दर्शन अशातिकष्यसि पृथोपवासीनो मद्द्यूतस्त्रीषु सदार भाषणोपकर्ता वैडाल व्यधिकाश्च अब्रह्मचारिणाधीतमिज्या विदुशाकृता तपो वने ग्राम्यभुजां तथैव निर्जितात्मनां ब्राह्मणक्षत्रियविशां शूद्राणाञ्च स्वकर्मतः परिच्युतानां या चेष्टा परलोकार्थमीप्सदा तस्याश्च यत्फलं सर्वं तत्ते यक्ष भविष्यति अन्यच्च ते प्रयच्छामि पुष्ट्यार्थं सन्निबोध तद भवदो वैश्वदेवान्ते दे नामोच्चारणपूर्वकम् ये दत्त वेदि दास्यन्ति भवतो बलिमूर्झिदं यः संस्कृताशीविधिवच्छुचिरन्दस्तथा बहिः अलो लुकोजितस्त्रीकस्तद्गेकमपवर्जय पूज्यन्ते हव्यकव्याभ्यां देवताः पितरस्तथा यामयोतिथयश्चापि तदेकं यक्षवर्जया यत्र मैत्रीगृहे बालवृद्धयोषिन्नरेषु च तथा स्वजनवर्गेषु गृहं तच्चाभिवर्जय योषितो नवहेर् गमनोत्सुकाः लज्जान्विदा सदा गेहं यक्ष वयस्म बन्धयोग्यानि शयनान्यशनानि च यत्र गेहे त्वया यक्ष तद्वर्ज्यं वचनान्मम यत्र कारुणिका नित्यं सामान्योपस्करैर्युक्तास्त्यजेधा यक्षत्तद्गृहसं यत्रा सनस्तास्तिष्ठत्सु गुरुवृद्धद्विजातिषु न तिष्ठन्ति गृहं तच्च वर्ज्यं यक्षत्वया सदा तरुगुल्मादिभिर्धारं न नविद्धं यस्य वेश्मनः मर्म भेदोऽधवा पुंसत्तच्छेयो भवनं न ते दे देवता दे पितृभृत्यानामदिधीनां च वर्धनं यस्या वसिष्ठे नान्येन पुंसस्तस्य गृहं त्यज सत्यवाक्यान् क्षमाशीला न किं स्त्रान्नानुतापि नः पुरुषानीदृशान् यक्ष त्यजेथाश्चानसूयकान् भर्तृ ञ्च त्यजयोश्चितं यजनाध्ययनाभ्यासदानासक्तमदिं सदा यजनाध्यापनादानकृतवृत्तिं द्विजं त्यज दानाध्ययनयज्ञेषु सदोद्युक्तं च दुस्सह क्षत्रियं त्यज सच्छुल्कशस्त्राजीवात्तवेदनम् त्रिभिः पूर्वगुणैर्युक्तं पशुपाल्यवणिज्ययोः कृषेश्चावाप्तवृत्तिश्च त्यज वैश्यमकल्मषं दाने चाद्विजशुश्रूषा तत्परं यक्षसन्ध्यज शूद्रं च ब्राह्मणादीनां शुश्रूषा वृत्तिपोषकं श्रुति यत्र कृतवृत्तिर्गृे गृह यत्र पुत्रो गुरो पूजा देवा पिता पत्नी चर्तृकु तत्री भय लिप्तं सदानुलिप्तं सन्ध्यासु गृहमम्बुसमुक्षितं कृतपुष्पबलिं यक्ष न त्वं शक्नोषि वीक्षिदुं भास्करा दृष्टशय्यानि नित्याग्निसलिलानि च सूर्यावलोकदीपानि लक्ष्म्या गेहानि भाजनं यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी विसाज्यताम्रपात्राणि तत् ऋं न यत्र कष्टकिनो वृक्ष यत्र निष्पाववल्लरी भार्या पुनर्भूवल्मीकस्तध्यक्ष तव मन्दिरम् यस्मिन् गृहे नराः पञ्चस्त्रीत्रयं तावतीश्च गाः अन्धकारेन्धनाग्निश्च तद्गृहं वसतिस्तव ये गच्छा गन्द्विवालेयं त्रिगवं पञ्चमाहिषं षडश्वं सप्तमादङ्गं गृहं यक्षाशुशोषय कुद्दालदात्रपिटकं तद्वस्थाल्यादिभाजनं यत्र तत्रैवक्षिप्तानि तव दद्युःप्रदिश्रयं मुसलोलूकले स्त्रीणा मा तद्वदुदुम्बरे अवस्करे मन्त्रणं च यक्षैतदुपकृतव लङ्क्यन्दे यत्र धान्यानि पक्वापक्वानिवेश्मनि तद्वच्छास्त्राणि तत्र त्वं यथेष्टं चरदुःसह स्थालीपिधाने यत्राग्निर्दत्तो दर्वो भलेनवा गृहे तत्र समाश्रयः यत्र मनुषास्थे यस तथ्यक्षस अदत्वा भुंजदे वै बंधो तदोदगं तथोद स पिंडाशोदकाश तत्ता भज यत्र पद्मपहापद्मौ स्थुरभिर्मोकाशिनी वृषभैरावधौ यत्र कल्प्यन्ते तद्गृहं त्यज अशस्त्रा देवता यत्र सशस्त्राश्चाहवं विना कल्प्यन्ते मनुजैरर्च्यास्तत्परित्यज मन्दिरम् पौरजानपदर्यत्र प्राक् प्रसिद्धमहोत्सवाः क्रियन्ते पूर्ववद्गेहेन त्वं तत्र शूर्पवाद गृहे चरशूर्पवादखाम्भोभिस्त्राणं वस्त्राम्बुविप्रुषैः नकाग्रसलिलैश्चैव तान् याहि हदलक्षणान् देशाचारान् समयान् ज्ञादि समयाञ्ज्ञादिधर्मं जबं होमं मङ्गलं देवतेष्टिं सम्यक् शौचं विधिवल्लोकवादान् पुंसस्त्वया कुर्वदो मास्तु सङ्गः मार्कण्डेय उवाच इत्युक्त्वा दुःसहं ब्रह्मा तत्रैवान्तरधीयत चकारशासनं सोऽपि तथा पङ्कजन्मनः इति श्रीमार्कण्डेयपुराणे यक्षानुशासनो नाम पञ्चाशोऽध्यायः ओ